नारदपुराणं पूर्वार्धं अध्यायं सेवेण्टि त्रि सनत्कुमार उवाच अधरामस्य मनवो वक्ष्यन्ते सिद्धिदायकाः येषामाराधनान् मर्त्यास्तरन्ति भवसागरं सर्वेषु मन्त्रवर्येषु श्रेष्ठं वैष्णवमुच्यते गाणपत्येषु सौरेषु शाकशैवेष्वभीष्टदम् वैष्णवेष्वपि मन्त्रेषु राममन्त्राफलाधिकाः गाणपत्यादिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः विष्णुशय्यास्ति दो निरिन्दुभूषितमस्तकः रामाय हृदयां तोयं महाखौद्धविनाशनः सर्वेषु राममन्त्रेषु ह्यदिश्रेष्ठषडक्षरः ब्रह्मभत्या सहस्राणि ज्ञादाज्ञातकृतानि च स्वर्णस्तेय सुरापान सुरापानगुरुतल्पायुधानि च कोटिकोटिसहस्राणि ह्युपपानि यानि वै मन्त्रस्योच्चारणात् सद्योलयं यादिनसंशयः ब्रह्मा मुनिस्याद्गायत्री छन्दो रामश्च देवता आद्यम्बीजन्द हृच्छक्रिर्विनि योगोऽखिलाप्तये षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेद् ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्योर्गुह्यपादयोः मन्त्रवर्णान् प्रमाण्यस्य केशवादीन् प्रवीण्यस्येद् पीठन्यासादिकं कृत्वा ध्यायेद्धृतिरकूत्तमम् कालाम्बोधरकान्तं च वीरासनसमास्थितं ज्ञानमुद्रां दक्षहस्ते दधदं जानुनीतरं सरोरुकरां सीतां विद्युदाभां च पार्श्वगां पश्यन्तीं रामवक्राब्जं विविधा कल्पभूषितां ध्यात्वैवं प्रजा प्रजपेद्वर्णलक्षं मन्त्री दशांशदः कमलैर्जुहुयाद्वह्नौ ब्राह्मणान् भोजयेतदः पूजयेद्वैष्णवे पीठे विमलादिसमन्विदे मूर्तिमूलेन सङ्कल्प्य तस्या मावाह्यसाधकः सेतां वामे समासीनाम् तन्मन्त्रेण प्रपूजयेद् रमासीतापदं खेन्दं द्वीठान्तो जानकी मनुः अग्रे शार्गं च सम्पूज्य शरान् पार्श्व द्वयेऽर्चयेत् हे शरेषु षडङ्गानि पत्रेष्वेदान् समर्चयेद् हनुमन्तं च सुग्रीवं भरतं सविभीषणम् लक्ष्मणाङ्गदशत्रुघ्नाञ्चाम् भवन्तं क्रमः पुनः वाचयन्तं हनू मन्दग्रदो धृतपुस्तकं यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ धृतादपत्रं हस्ताभ्यां लक्ष्मणं पृष्टतोऽर्चयेद ततोपत्रे सृष्टिं च जपन्तं विजयं तथा सुराष्ट्रं राष्ट्रपालं च अकोपं धर्मपालकं सुमन्तं चेदि सम्पूज्य लोके शानायुद्धैर्युधान् एवं रामं समाराध्य जीवन्मुक्त प्रजायते चन्दनाखै प्रजुहूयाजादिपुष्पैः समाहितः राजवश्याय कमलायैर्धन धान्यादिसिद्धये लक्ष्मीकामप्रजुहुयात् प्रसूनैर्विल्वसम्भवैः आज्ञाकृतैर्नीलकमलैर्वशयेदखिलं जगद कृताशदपर्वीभिर्दीर्घायुश्च निरामयः रक्तोत्पलानां होमेण धनं प्राप्नोति वाञ्छितम् पालाशकुसुमूत्वा मेधावी जायते नरः तज्जप्तां धः पिबेत् प्रादर्वत्सरात् कविराड् भवेद् तन्मन्त्रितान्नं भुञ्जीदमः रोगप्रशान्तये रोगो होमेन तद्रोगान्मुच्यदे नदीतीरे जगोष्ठे वा जपेर्लक्ष्यं पयोव्रदः पायसेनाजयुक्तेन कुत्वा विद्यानिधिर्भवेद् परिक्षीणाधिपत्यो यस्याकाकारो जलांदरे जपेल्लक्ष्यं च जुहुयाद्विल्व पुष्पैर्दशांशदः तदैव पुनराप्नोदि स्वाधिपत्यं न संशयः उपोष्य गङ्गातीरान्ते स्थित्वा लक्षं जपेन्नरः दशांशं कमलैर्हुत्वा विल्वोद्धैर्वा प्रसूनकैः मधुरत्रयसंयुक्तैरागज्यश्रियमवाप्नुयाद मगमस्ये जले स्थि कंदमूलफलाशन लक्ष्यम ज्वा दशाशेन पाशुयाध्वस श्रीरामचंद्रसदृशपुत्रपौत्रो भी जायते अनेवसि प्रयोगामंत्रज किन्तु प्रयोगकर्तॄणां परलोको न विद्यते षट्कोणं वसुपत्रं च तद्बाह्यार्कदलं लिखेद् षट्कोणेषु षडर्णानि मन्त्रस्य विलिखेद् बुधः अष्टपदेत्तर्णाल्लिखेत् प्रणवगर्भितान् कमबीजं रविदले मध्ये मन्त्रावृदाभिधाम् सुदर्शनावृतं बाह्ये दिक्षु युग्मावृतं तथा वज्रोल्लसद्भूमिगेहं कन्दर्पाङ्गुशपाशकैः भूम्या च विलसत् कोणं यन्द्रराजमिदं स्मृतं भूर्जेष्ठगन्धैः संलिख्य पूजये दुग्धवर्त्मना शकोणेषु ददार्काब्जान्यावेष्ट वृत्तयुग्मदः केशरेष्वष्टपत्रस्य स्वरद्वन्द्वं लिखेद्बुधः बहिस्तु मादृतं चैव मन्त्रं प्राणनिधयनं यन्त्रमेदचुभे खत्स्रे खण्डे वा दक्षिणे भुजे मूर्ध्नि वा धारयन्मन्त्रि सर्वपापैः प्रमुच्यते सुदिने शुभनक्षत्रे सुदेश्ये शल्यवर्जिते वश्याकर्षणविद्वेषद्रावणोच्चाटनादिकं पुष्यद्वयं तथा धित्यार्द्रामखासु यथा क्रमं दूर्वोद्धा लेखनी वश्ये तथा कृौ करं च जा नरास्ति जा मारणे दुस्तम्भेन राजवृक्षजा शान्ति पुष्टाष्ट्यायुषं सिद्ध्यै सर्वापचमनाय च विभ्रमोत्पादने चैव शिलायां विलिखेद्बुधः खरचर्मणि विद्वेषे ध्वजे तूञ्चाडनाय च शत्रूणां ज्वरसन्तापशोकमारणकर्मणि पीतवस्त्रं लिखित्वादु साधये साधकोत्तमः पश्या पृष्टौच्चाष्टगन्धै सम्पूज्य च यथाविधि चेताङ्गारादिना चैव ताडनोच्चाडनादिकं वि विषार्कक्षीरयोगेन मरणं भवदि ध्रुवं लिखित्वैवं यन्द्रराजं गन्धपुष्पादिभिर्यजेद त्रिलोकवेष्टितं कृत्वा धारयेत् साधगोतमः बीजं रामाय द्वन्द्वं मन्द्रोऽयं रसवर्णकः महासुदर्शनमनुकथ्यते सिद्धिदायकः सुदर्शनमहाशब्दचक्र राजेश्वरेति च दुष्टान्धकदुष्टभयानकदुष्टभयङ्करम् सिन्धिद्वयं भिन्दियुग्मं विदारय युगं तदः परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्विदयं तदः प्रासयद्विदयं वर्मास्त्राग्नि जायान्तिमो मनुः अष्टषष्ट्यक्षरप्रोक्तो यन्त्रसंवेष्ठने द्वयं तारो हृद्भगवान् केन्दो गेन्दो गिरकुनन्दनः रक्षोघ्नविशदायान्दे मधुरादिप्रसन्नजा वरदानायामि तां दे, दे नुते जसे पदमीरयेद् बालायां देतु रामाय विष्णवे हृदयां धीमः सप्तचत्वारिंशदर्नो मालामन्त्रोयमीरितः विश्वामित्रो मुनिश्चास्य गायत्री चन्द ईरिदं श्रीरामो देवता बीजं ध्रुवशक्तिश्चयं षड् दीर्घस्वरयुग्माया बीजेनाङ्गानि कल्पयेद् ध्यानपूजादिकं सर्वमस्य पूर्ववदाचरेद अयमाराधितो मन्त्रसर्वान् कामान् प्रयच्छति स्वकामः सत्य वाग्लक्ष्मीताराढ्यपञ्चवर्णकः षडक्षरषड्विधस्याञ्चतुर्वर्गफलप्रदः ब्रह्मा सम्मोहनशक्तिर्दक्षिणामूर्तिसंज्ञकः अगस्त्य श्रीशिवप्रोक्तास्तेषां मुनयक्रमाद् अथवा कामबीजादेर्विश्वामित्रो मुनिस्मृतः छन्दप्रोक्तं च गायत्री श्रीरामो देवता पुनः बीजशक्तिराध मान्द्यं मन्त्रार्णैः स्यात् षडङ्गकं बीजैषडदीर्घयुक्तैर्व मन्त्रार्णान् पूर्ववन्यसेद ध्यायेत् कल्पतरोर्मूले सुवर्णमयमण्डपे पुष्पकाघ्यविमानां तसिंहासनपरिच्छदे पद्मे वसुदले देवमिन्द्रनीलसमप्रभं वीरासनसमासीनं ज्ञानमुद्रोपशोभितं वा मोरुन्यस्तद्धस्तसिता लक्ष्मणसेवितं रत्नाकल्पं विभुं ध्यात्वा वर्णलक्षं जपेन्मनुं यद्वा स्मारादिमन्त्राणां जयाभं च हरिं स्मरेद ये जनं काम्यकर्माणि सर्वं कुर्यां षडर्नवद रामश्च चन्द्रभद्रान्दोक्येन मोन्दो ध्रुवादिकः मन्त्रष्टाक्षरौ ह्येदौ रान्त्यौ चेन्नवाक्षरौ एतेषां यजनं सर्वं कुर्यान्मन्त्री षडर्णवद जानकीवल्लभोगेन्दो द्विधान्धः कवचादिकः दशार्णोऽयं महामन्त्रो विशिष्ठोऽस्य मुनिस्वराड चन्दश्च देवता सीतापतिर्बीजं तथादिमं स्वाहाशक्तिश्च कामेन कुर्यादङ्गानि षट्क्रमाद् शिरोललाडभ्रूमध्यतालुकण्ठेषु हृद्यपि नाभ्याङ्घ्रिजानुपादेषु दशार्णान्विन्यसेन्मनोः अयोध्यानगरे रत्नचित्रसौवर्णमण्डपे मन्दारपुष्पैराबद्ध विधाने तोरणान्विदे सिंहासनसमासीनपुष्पकोपरि राघवम् रक्षो रक्षोभिर्हरिभिर्देवैः सुविमानगदैः शुभैः स्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितं सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितं श्यामं प्रसन्नवदनं सर्वभरणभूषितम् एवं ध्यात्वा जपेन्मन्द्री वर्णलक्षं समाहितः दशांश कमलैर्होमो यजनं च षडर्नवदन् रामो केन्दो धनुष्पाणिर्खैन्दोन्देवन्यसुन्दरी दशाक्षरोऽयं मन्त्रोऽस्य मुनिर्ब्रह्मविराट् पुनः छन्दस्तु देवदा प्रोक्तु रामो राक्षसमर्दनः आद्यं बीजं द्विद्ध शक्ति भीं जेनाङ्गानि कल्पयेद वर्णन्यासं तथा ध्यानं पुरश्चर्यार्चनादिकम् दशाक्षरोक्तवत्कुर्या चापबाणधरं स्मरेद तरो नमो भगवते रामान्दे चन्द्रभद्रकेन्दा वर्काक्षरौ मन्त्रौ पूर्ववद श्रीपूर्वं जयपूर्वं च तद्विधा रामनाम च त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मविराट् स्मृतं छन्दस्तु देवदा प्रोक्तो रामः पापौखनाशनः षडङ्गानि प्रगुर्वीदद्विरावृत्यापदत्रयैः ध्यानार्चनादिकं सवह्यस्य कुर्याद् दशार्णवद तारो नमो भगवते रामायान्दे महापदं पुरुषाय हृदन्तोऽयं मनुराष्टाद् दशाक्षरः विश्वामित्रो मुनिश्चदो धृति रामोऽस्य देवदा तारो बीजं नमः शक्तिश्चन्द्राक्ष्याब्द्याग्निषड्भुजैः वर्णै मन्द्रोद्भिदैकुर्यात् षडङ्गानि समाहितः निःशाणभैरिपटः शङ्कतूर्यदिनिस्वनैः प्रवृत्तनृत्यपरिदो जयमङ्गलभाषिदे चन्दनागरुकस्तुरी कर्पूरादिसुवासिदे नानाकुसुमसौरभ्य वाहि गन्त गन्धवहान्विदे देवगन्धर्वनारीभिर्गायन्तीभिरलङ्कृते सिंहासने समासिनं पुष्पकोपरिराघवं सौमित्रिसीतासहितं जडा मुकुटचोभितं चापबाणधरं श्यामं ससुग्रीवविभीक्षणं कत्वा रावणमायान्दं कृतत्रैलोक्यरक्षणम् ेवं ध्यात्वा जपेद्वर्णं लक्षं मन्त्री दशांशदः कृदाहृदैपयसै हृत्वा यजनं पूर्ववञ्चरेत् प्रणवो हृदयं सीतापदये तदनन्तरं रामाय हनयुग्मान्दे वर्मास्ताग्निप्रियान्तिमः एकोन विंशध्वर्णोऽयं मन्त्रसर्वार्थसाधकः विश्वामित्रो मुनिश्चास्यानुष्टुप्छन्द उदाहृदम् देवता रामभद्रोजं बीजं शक्तिर्नम इति मन्त्रोद्धिदै प्रमाध्वर्णैस्ततोऽध्यायेञ्च पूर्ववद पूजनं काम्यकर्मादि सर्वमस्य षडर्णवद तारस्वबीजं कमला सम्पठेत महे श्वासपदान्ते दुरघुवीरनृपोत्तम दशास्यान्तकशब्दान्ते मां रक्षदेहि सम्पठेद परमान्दे मे स्यान् मन्द्रो बाणगुणाक्षरः बीज वियुक्तो धात्रिं स धर्णोयम् फलदायकः विश्वामित्रो मुनिश्च अस्यानुष्टुच्छन्द उदाहृदं देवद राम भद्रोऽत्र बीजं स्वं शक्तिरिन्दिरा बीजत्रयाध्यैकुर्विद पदैः सर्वेण मन्त्रविद पञ्चाङ्गानि च विन्यस्य मन्त्रवर्णान् क्रमान्यसेद मूर्ध्नि बाले दृश्योश्रोत्रे गण्ठयुग्मे सनासिके अस्ये दोः सन्धियुगले स्तन कृन्नाभिषुप्रमाद कटुमेढ्रे पायुपाद सन्धिस्वर्णान्यस्येन्मनोः ध्यानार्चनादिगम् चास्य पूर्ववत्समुपाचरेद लक्षत्रयम् पुरश्चर्याम् पायसैर्हवनम् मदम् ध्यात्वा रामम् पीतवर्णम् जपेद् लक्षम् समाहिदः दशांशम् कमलैर्हुत्वा धनैर्धनपदिर्भवेद तारो माया रमाद्वन्द्वम् दास्य रथाय हृञ्जवै एकादशाक्षरो मन्त्रो मुन्याद्यर्चास्य पूर्ववत् पूर्ववद तु नाधाय हृदन्तो वसुवर्णवान अस्यापि पूर्ववत् सर्वं न्यासध्यानार्चनाधिकम् आञ्जनेयपदान्ते गुरवे हृदयान्तिमः मन्त्रो नवाक्षरोऽस्यापि यजनं पूर्ववन्मतम् खेद ङेदं रामपद पश्चाधृतयं पञ्चवर्णवद मुनिध्यानार्चनं चास्य प्रोक्तं सर्वं षडर्णवद रामदे चन्द्रभद्रौज खेन्दौ पावकवल्लभा मन्त्रो द्वौज समाख्यादौ मुन्याद्यर्चादिपूर्ववद वन्निशेषान्वितश्चैव चन्द्रभूषितमस्तकः एकाक्षरो रघुपदेर्मन्त्रकल्पद्रुमो परः ब्रह्मा मुनिः स्यात् गायत्री चन्दो रामोऽस्य देवता षड्दीर्घाढ्ययनमन्त्रेण षडङ्गानि समाचरेद सरयुधीरमन्तारवेदिका पङ्कजाशनि श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितं वामोरुन्यस्तम् तद्धस्तम् सीता लक्ष्मणसंयुधम् अवेक्षणामात्मानं मन्माधामिद तेजस्सं शुद्धस्फटिकसङ्कासम् केवलं मोक्षकाङ्क्षया चिन्तयेत् परमात्मान मृदुलक्षं जपेन्मनुम् सर्वं षडर्न वञ्चास्य होम नित्यार्चनादिकं वन्निष्यशासनो भान्ध केवलो द्वि अक्षरो मनुः एकाक्षरोक्तवत्सर्वं मुनिध्यानार्चनादिकं तारमानार मानङ्गास्त्रबीज द्विवर्मकः मन्त्रराजस्य षड्विधस् सकलेष्टदः वक्षश्चरम्भां द्वि द्वि अक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः एकार्णोक्तवदेतेषां मुनिध्यानार्चनादिकं तारो रामश्चतुर्ध्यन्तो वर्मास्त्रं वह्निवल्लभाम् अष्टार्णो य मुन्याद्यर्चा षडर्णवद रोमया कृदन्ते स्याद्रा माय प्रणवान्तिमः शिवो मा राम मन्द्रोयमष्टार्न सर्वसिद्धितः ऋषिसदा शिवप्रोक्तो गायत्री चन्द ईरितं शिवो मा राम चन्द्रोऽत्र देवता परिकीर्तितः षड्वीर्य यामाय यादुध्रुव पञ्चार्णयुक्तया षडङ्गानि विधयाध ध्याये धृदि सुरार्चितं रामं त्रिनेत्रं सोमार्धधारिणं चूलिनं वरं भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे रामाभिरामं सौन्दर्यसीमां सोमां वतंसिनीं पाशाङ्कुशधनुर्बाणधरां ध्याये त्रिलोचनां एवं ध्यात्वा जपेद्वर्णलक्षं त्रिमधुरान्वितैः बिल्ब्रैः फलैपुष्पैस्तिलैर्वा पङ्कजायर्हुनेद स्वयमायान्दिनिधयसिद्धयश्च सुरेप्सिताः भरताग्र जराम मनोभवः वन्नी वह्निजाया द्वादशार्णो मन्त्रकल्पद्रुमोपदः अङ्गिराश्च मुनिश्चन्दो गायत्री देवता पुनः श्रीरामो भुवनाबीजं स्वाहा शक्रिसमीरितः चन्द्रैकमुनिभूनेत्रैर्मन्त्रार्णैरङ्गकल्पनम् ध्यानपूजादिकं चाश्च सर्वं कुर्यात् षडर्णवद प्रणवो हृदयं सीतापतिरामश्च गेन्दिमः हनद्वयान्ते वर्मास्त्रं मन्त्रषोडशवर्णवान् अगस्त्योऽस्य मुनिश्चन्दो बृहदिदेवता पुनः श्रीरामोऽहं तदा बीजं रामशक्तिसमूह समुदीरिता समु रामाब्धिवग्नि वेदाक्षिवर्णैः पञ्चाङ्गकल्पना ध्यानपूजादिकं सर्वमस्य कुर्या तारो हृञ्चैव ब्रह्मण्यसेव्याय पदमीरयेद् रामायाकुण्डशब्दान्तं त्यजसेज समीरयेद् उत्तमश्लोक धुर्याय स्वं षडार्पिताम्ब्रिये मन्द्रो राम रामाक्षरो मदः ऋषिशुक्रस्तथा निष्ठुच्छन्दो रामोऽस्य देवता पादै सर्वेण पञ्चाङ्गं कुर्या चेशं षडर्नवद लक्षं जपो दशांशेन जुकुयात् पायसै सुधीः सिद्धमन्त्रस्य भुक्तिष्यान्मुक्तिपादकनाशकम् आदौ दाशरधा यान्दे विद्महे पदमुच्चरेत् तदसीतावल्लभाय धीमहीति समुच्चरेद् तनो रामप्रोचो वर्णो दयादिति च संवदे ये शोक्तारा मगायत्री सर्वाभीष्टबलप्रदा पद्मा सीतापदङ्गेदं तद्वयान्तःषडक्षरः वाल्मीकिश्च मुनिश्चन्दो गायत्री देवता पुनः सीता भगवति प्रोक्ता श्रीं बीजं वह्नि सुन्दरी शक्तिषड् दीर्घयुक्तेन बीजेनाङ्गानि कल्पयेद ततोऽध्यायन्महादेवीं सीतां त्रैलोक्यपूजितं तप्तखाटकवर्णाभां पद्मयुग्मं करद्वये सद्रत्नभूषणस्फूर्जद्दिव्यदेकां शुभात्मिकां नानावस्त्रां शशिमुखीं पद्माक्षीं मुदितान्तरां पश्यन्तीं राघवं पुण्यं शय्याद्यां षड्गुणेश्वरीं एवं ध्यात्वा जपेद्वर्णलक्षं मन्त्रिदशांशदः ज्यो को यात् कमलैफुल्लैपीठे पूर्वो दिदे मूर्तिं सङ्कल्प्य मूलेन तस्या मावाह्य जानकीं सम्पूज्य दक्षिणे रामम् अभ्यर्च्य अग्रे निलात्मजं पृष्ठे लक्ष्मणमभ्यर्च्य षट्कोणेषु अङ्गपूजनं पत्रेषु मन्त्रिमुख्यंश्च बाह्ये लोकेश्वरान् पुनः वज्राद्यानपि सम्भूज्य सर्वसिद्धीश्वरो भवेद जातिपुष्पैश्चन्दनाकृतै राज वशाय कोमयेद् कमलैर्धनधान्याप्तिर्नीलाब्जैर्वशयन् जगद बिल्बपत्रैः श्रियप्राप्तैर् दूर्वाभीरो राशान्तये किं बहु कुतु न सौभाग्यं पुत्रान् पौत्रान् परं सुखम् धनं धान्यं च मोक्षं च सीताराधनदो लभेद शक्रस्येन्दुर्लक्ष्मणाय हृदयं सप्तवर्णवान् अगस्त्योऽस्य मुनिछन्दो गायत्री देवता पुनः लक्ष्मणाख्यो महावीरचाढ्यं हृद्वीजशप्रके षड् दीर्घाढ्येन बीजेन षडङ्गानि समाचरेद् द्विभुजं स्वर्णरुचुरतनुं पद्मनिभेक्षणं धनुर्बाणकरं रामसेवा संसक्तमानसं ध्यात्वैवं प्रचपेद्वर्णलक्षं मन्त्री दशांशदः मध्वाक्तैः पायतैर्भूत्वा रामपीढे प्रपूजयेत् रामवद्यचनं चास्य सर्वसिद्धिप्रदोहयम् कल्यं रामपूजाय यदी चेन् नियतं नरः तेन यत्नेन कर्तव्यं लक्ष्मणार्चनमादराद श्रीरामचन्द्रभेदास्तु बहवत्सन्धिसिद्धिदाः तत्साधकै सदाकार्यं लक्ष्मणाराधनं शुभं अष्टोत्तरसहस्रं वा शतं वा सुसमाहितैः लक्ष्मणस्य मनोर्जप्यो मोमुक्षुभिरतं अजत्वा लक्ष्मणमनुं राममन्त्रान् जपन्दीये न तेषां जायते सिद्धिर्हानिरेव पदे पदे यो जपे लक्ष्मणमनुं नित्यमेकान्तमास्थितः मुच्यते सर्वपापेभ्य सर्वान् कामान्वाप्नुयाद जयप्रधानो मन्त्रोऽयं राज्यप्राप्त्यैकसाधनं नष्ट राज्यात्तये मन्त्रं जपे लक्ष्यं समाखितः सो चिरान्नष्टराज्यं स्वं प्राप्नोत्येव न संशयः ध्यायन् राममयोध्यायामभिषिक्त मनन्यधीः पञ्चयुधं मनुं जत्वा नष्ट राज्यमवानुयाद नागपाशविनिर्मुक्तं ध्यात्वा लक्ष्मणमादराद अयुधं प्रचपेन्मन्त्रं निगडान्मुच्यते ध्रुवं त्मजेनानीदाभिरोषधीभिर्गतव्यथं ध्यात्वा लक्षं जपन्मन्त्रमल्पमृत्युं जये ध्रुवं खादयन्तं मेघनादं ध्यात्वा लक्षं जपेन्मनुं दुर्जयं वापि वेगेन जये ध्रिपुकुलं महद ध्यात्वा शूर्पणखाना साच्छेदनोद्युक्तमानसं सहस्रम् प्रजपेन्मन्त्रं पुरुभूतादिकाञ्जयेद रामपादां च सेवार्थं कृतोद्योगमधोस्मरन् प्रजापन् क्षं मे कान्ते महारोगात् प्रमुच्यते त्रिमासं विजिदाहारो नित्यं सप्तसहस्रकम् अष्टोत्तरशतैपुष्पैर्निच्छेद्रैः शादपत्रकैः पूजयित्वा विधानेन पायसं च स शर्करं निवेद्य प्रजपेन्मन्त्रं कुष्ठरोगात् प्रनुच्यते विजने विजिदाहारषण्मासं विधिना मुनां क्षयरोगात् प्रमुच्यत सत्यं सत्यं न संशयः अभिमन्त्र्यजलं प्रातर्मन्त्रेण त्रिसमाहितः त्रिसन्ध्यं वा पिबे नित्यम् दारिद्र्यं च पराभूतं जायते धनदोपमः विषादिदोषः संस्पर्शो न भवेत्तु कदाचन मनुनां मन्त्रितैस्तो ह्यै प्रत्येकं क्षालयेन्मुखं मोखनेत्रादिसम्भूता जये द्रोगांश्च दारुणान् पीत्वाभिमन्त्रितं त्वं भः कुक्षिरोगान् जये ध्रुवम् लक्ष्मणप्रतिमां कृत्वा दत्या दक्र्या विधानदः स सर्वेभ्योऽगेभ्यो मुच्यते नात्र संशयः कन्यार्की विमलापाणिग्रहणसक्तमानसः ध्यायं लक्षं जपेन्मन्त्री अब्जैर्भूत्वा दशांशदः ईप्सितां लभते कन्यां शीघ्रमेव न संशयः दीक्षितं जुम्भणास्त्राणां मन्त्रेषु नियतव्रतं ध्यात्वा विधिवनित्यं विधिवन्नित्यं जपेन् मासत्रयं मनुं पूजा पुरस्सरं सप्तसाहस्रं विजितेन्द्रियः सर्वासामपि विद्यानां तत्त्वज्ञो जायते नरः विश्वामित्रक्रदुवरे कृताद्भुतपराक्रमं द्याल्लक्षं जपेन् मन्त्रम् उच्यते महतोभयाद कृतकृत्यक्रियस्योद्धिकालं प्रचपेन्मनुम् सर्वपापविनिर्मुक्तो यादिविष्णोः परं पदम् दीक्षितो विधिवन्मन्त्रिगुणैर्विगधकल्मषः स्वाचारनियदो दान्तो गृहस्थो विजितेन्द्रियः ऐः काननप्रेक्ष्यैव निष्कामो योऽर्चये द्विभुम् सर्वान् पुण्यपापौ धान् लब्ध्वा निर्मलमानसः पुनरावृत्तिरहितशाश्वतं पदमश्वदम् पदमश्नु सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान् मनोगतान् जादिरमरचिरं भूत्वा यादि विष्णुः परं पश्चाद्भरदाय कृतिमाः सप्ताक्षरो मनिश्चास्य मुन्याद्यर्चादिपूर्ववद भगत्से दुश्च शत्रुघ्नपरं खेदं कृदन्तिमः सप्ताक्षरोऽयं शत्रुघ्नमन्त्रसर्वेष्ठ सिद्धिदः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे रामाद्युपासनावर्णननाम त्रिसप्ततितमोऽध्यायः ओम